अथ एकत्रिंशदधिकद्विशततमोऽध्यायः जरितारिर्वाच पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः सकृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हि चेत् यस्तु कृच्छमनुप्राप्तं विचेतानावबुध्यते सकृच्छ्रकाले व्यथितो न विन्दते महत् सारिसृक्च धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदम् प्राज्ञः शूरो बहूनां हि भवत्येको न संशयः ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः ज्येष्ठश्चेन्न प्रजानाति कनीयान् किम् करिष्यति द्रोणवाच हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् वैशंपायन यथाग्निं शृणु पार्थिवा जरितारिर्वाच आत्मा शिवायोर्ज्वलना शरीरमसि वीरुधां योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा ऊर्चिषस्ते महावीर्यः सवितुर्यथा सारिसृक् उवाच माता प्रणष्टा पितरं न विद्मः पक्षादाता नैव धूमकेतो ननस्त्राता विद्यते वै त्वदन्यः तस्मादस्मां बालां स्वमग्ने